बहुशोणितदिग्धाङ्ग्यो मुक्तकेश्योरजस्वलाः एवम् कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् कृत्वा तु नैर्वृतान् दर्भान् धीरोधौम्यः पुरोहितः सामानि पुरतो याति भारत हतेषु भारतेष्वाजौ कुरूणाम् गुरवस्तदा एवम् सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति हा हा गच्छन्ति नो नाथाः समवेक्षध्वीदृशम् अहो धिक्कुरु कुरु वृद्धानाम् बालानामिव चेष्टितम् राष्ट्रेभ्यः पाण्डुदायान्तान् लोभान् निर्वासयन्ति ये अनाथाः स्म वयम् सर्वे वियुक्ताः पाण्डुनन्दनैः दुर्विनीतेषु लुब्धेषु का कौरवेषु नः इति पौराः दुःखार्ताः क्रोशन्ति स्म पुनः पुनः एवमाकारलिङ्गैस्ते व्यवसायं मनोगतं। कथयन्तश्च कौन्तेया वनम् जग्मुर्मनस्विनः येवम् तेषु न राग्येषु निर्यत्सु गजसाह्वयात् राहुरग्रसदादित्यमपर्वणि विशाम्पते उल्काचाप्यपसव्येन चाप्यपसव्येन पुरम् कृत्वा व्यशीर्यत प्रत्याहरन्ति क्रव्यादा गृद्धगोमायुवायसाः देवायतनचैत्येषु प्राकाराट्टालकेषु च